ैकोनविंशः सर्गः तस्मिन्नेव ततः काले राजपुत्रीत्वनिन्दिता रूपयौवनसम्पन्नम् भूषणोत्तमभूषितम् ततो दृष्ट्वैव वैदेही रावणम् राक्षसाधिपम् प्रावेपतवरारोह प्रभाते कदली यथा ऊरुभ्यामुदरम् छाद्य बाहुभ्याम् च उपविष्टा विशालाक्षी रुदती वरवर्णिनी दशग्रीवस्तु वैदेहीम् रक्षिताम् राक्षसी गणैः ददर्शदीनाम् दुःखार्ताम् नावम् सन्नामि वार्णवे असंवृतायामासीनाम् धरण्याम् संशितव्रताम् छिन्नाम् प्रपतिताम् भूमौ शाखाभिम वनस्पतेः मलमण्डनदिग्धाङ्गीम् मंदना मण्डनार्हामण्डनाम् मृणालीपङ्कदिग्धेव विभाति न विभाति च समीपम् राजसिंहस्य रामस्य विदितात्मनः सङ्कल्पहयसंयुक्तैर् यान्तीमिव मनोरथैः शुष्यन्तीम् मृदतीमेकाम् ध्यानशोकपरायणाम् दुःखस्यान्तमपश्यन्तीम् रामाम् राममनुव्रता चेष्टमानामथाविष्टाम् पन्नगेन्द्रवधूमिव धूप्यमानाम् ग्रहेणेव रोहिणीम् धूमकेतुना वृत्तशीले कुले जातामाचारवति धार्मिके पुनः सन्नामिव महाकीर्तिम् श्रद्धामिव विमानिताम् प्रज्ञामिव परिक्षीणामाशाम् प्रतिहतामिव आयतीमिव विध्वस्तामाज्ञाम् प्रतिहतामिव दीप्तामिव दिशम् काले पूजामपहतामिव पौर्णमासीमिव निशाम् तमोऽग्रस्तेन्दुमण्डलाम् पद्मिनीमिव विध्वस्ताम् हतशूराम् च प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् वेदीमिव परामृष्टाम् शान्तामग्निशिखामिव उत्कृष्टपर्णकमलाम् वित्रासितविहङ्गमाम् हस्तिहस्तपरामृष्टामाकुलामिव पद्मिनीम् पतिशोकातुराम् शुष्काम् नदीम् विश्रावितामिव सुकुमारीम् सुजाताङ्गीम् रत्नगर्भगृहोचिताम् तप्यमानामिवोष्णेन मृणालीमचिरोद्धृता गृहीतामालिताम् स्तम्भे यूथपेन विना कृताम् निःश्वसन्तीम् सुदुःखार्ताम् गजराजवधूमिव एकया दीर्घया वेण्या नीलया नीरदापाये वनराज्या वनराज्यामहीमिव उपवासेन शोकेन ध्यानेन च भयेन च अल्पाहारां कृशान्दीनामल्पाहारान्तपोधनाम् आयाचमानाम् दुःखार्ताम् प्राञ्जलिम् देवतामिव भावे रघुमुख्यस्य दशग्रीवपराभवम् समीक्षमाणाम् रुदतीमनिन्दिताम् सुपक्ष्मताम् रायत शुक्ललोचना अनुव्रताम् राममतीव मैथिलीम् प्रलोभयामास वधाय रावणः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये सुन्दरकाण्डे एकोनविंशः